परिब्रुर्महाबाहुमेकवेणीधरा स्त्रियः सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः व्रतसन्ताप च शोको नात्र काश्चिदपीडयत् अरजांसि च वासांसि समेत्ययदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः ऊचुश्चैनं हृषी केशं कन्यकावूचुः नारदेन समाख्यातमस्माकं पुरुषोत्तम आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये सोसुरं नरकम् हत्वा निशुम्भम् मुरमेव च सपरिवारं च सपरिवारम् च दानवम् तथा पञ्च जनम् चैव प्राप्स्यते धनमक्षयम् सोचिरेणैव कालेन युष्मन्मुक्ता भविष्यति एवमुक्त्वा गमद्भीमान् देवर्षिर्नारदस्तथा त्वाम् चिन्तयानाः सततम् तपो घोरमुपास्महे कालेऽती ते महाबाहुम् कदा द्रक्ष्याम माधवम् इत्येवम् हृदि सङ्कल्पम् कृत्वा पुरुषसत्तम